नतातो नमाता न माता न बन्धोर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता न महादुःखभि प्रपन्नप्रकामी प्रलोभिप्रमत पुसंसारपाश प्रबद्धसदाहं गतेस्त्वं गतेस्त्वं त्वमेका भवानीं न जानामि दानं न च ध्यानयोगम् न जानामि तन्त्रं न च स्तोत्रमन्त्रं न जानामि पूजां न च नासयोगं गतिस्थं गतिस्थं कमेका भवानी न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिम् लयं वा कदाचि न जानामि भक्तिं व्रतं वापि मातर् गतिस्त्वं भवानी कुकर्मी कुसङ्गी कुबुद्धि कुदाच कुलाचारहीना कदाचारीणा उदिष्टि कुवाक्य प्रबद्धसदाहं गतिस्वं गतेष्वम् त्वमेका भवानी रजेशं रमेशं महेशं सुरेशं दिनेशम् निशीथे स्वरं वा कदाचि जानां चान्यं सुराणां शरण्ये गतेस्त्वं गतेस्त्वं त्वमेका भवानि विमादे विषादि प्रमादिप्रवासे जले वा नरे पर्वते शत्रुमध्ये हरण्ये शरण्ये सदा मां प्रपाहि गतेष्ठं गतेष्टं प्रवेका भवानी अनाथो दरिद्रो जरारोगमुक्तो महाक्षीर्णदीन सदा जाढ्यवक्त्र विपत्तौ प्रविष्ट प्रणश्च सदाहम् गतेस्त्वं गतेस्त्वं रमेका भवानि गतेस्त्वं गतेस्त्वं रमेका भवानि गतेस्त्वं गतेस्त्वं रमेका भवानि